श्रीगुरुभ्यो नमः हरिः ओ गणानान्त्वा गणपतिगृम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वनोतिभिः सीदसादनम् महागणपतये नमः प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामभित्र्यवतु वाग्देव्यै नमः ओ आदून इन्द्रक्षुमन्तन् चित्रम् ग्राभम् सङ्ग्रभाजा महाहस्तिदक्षिणेन विद्माहित्वा त्वा तु वि कूर्मिन्तु वि देष्टन्तु आशूरदेवानमर्ता आशोदित्सन्तम् भीमन्नगाम् वारयन्ते एतोन्विन्द्रम् स्तवमेषा आनम्बस्व न राधसा वर्धिषन्नः प्रस्तो ओषदुपगासिषश्रवत्सा मगीजमा आनम् अभिराधसा जुगुरत् आनो ओभरदक्षिणेनाभिसंयेन प्रमृष इन्द्रमानोऽ वसोर्निर्भाक् उपक्रमस्व भरधृषताधिष्णो जना आनाम् अदा आशुष्टरस्य वेदाः इन्द्रय उनुते अस्ति वाजो विप्रे एभिः स निः अस्माभिः सुतम् सनुहि सद्योजुपस्ते वाजा अस्मभ्यम् विश्वश्च इन्द्राः वशैश्च भक्षो जरन्ते गणानान्त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठदाजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन् नोतिभिः सीदसादनम् निषु सी ईद गणपते गणेषु त्वा मा आहुर्विप्रथमम् न ऋते त्वत्क्रियते किञ्च नारे महामर्कम् मघवन् चित्रमर्च अभिख्यानमघवन्नाधमानान् सखे बोधि वसुपते सखीनाम् रणम् भक्ते जिदा भजाराजे अस्मान् शान्तिः ॐ नमो भगवते रुद्राजा ॐ नमस्ते रुद्रमञ्जव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इषुः शिवतमा शिवम् बभूव ते धनुः शिवा शरव्या जातवत जानो रुद्रमृडजा या ते रुद्रशिवातनूरघोरापापकाशिनी तया नस्तनु वाशन्तमजागिरिशन्ताभि चाकशीः यामिशुम् गिरिशन्त हस्तेऽपि भर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरु वाहिगुंसीः पुरुषम् जगत् शिवेन यथा नः सर्वभि जगदजक्ष्मगुम् सुमना असत् अध्यवोचदधिभक्ता प्रथमो दैव्योऽभिषक् अही गृश्च सर्वाञ्जम् भजन् सर्वाश्च जातु धान्यः असौ यस्ताम्र अरुण उत बभ्रुः सुमङ्गलः ये जे अभितो दिक्षुश्रिताः सहस्रशो बैठागुम् हेड इमहे असंयो सर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः हा। उतैनम् विश्वाभूतानि स दृष्टो मृडजातिनः नमो अस्तु नीलग्रीवायसहस्राक्षायमीढुषे अथोजे अस्य सत्त्वा नो हन्तेभ्योऽकरमः प्रमुञ्च धन्वनस्त्वमुभजोरार्त्नियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्यानाम् मुखा शिवो भव विद्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हे हेतिर्मीढुष्टमहस्ते बभूव ते धनुः तजास्मानि विश्वतस्त्वमयक्ष्मजा परिभुजा। नमस्ते अस्त्वाजुधा जानातता जष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथोज अस्मनिधे हितम् शमम्भवे नमः नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाग त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राग नीलकण्ठाय मृत्युञ्जयाय सर्वे स्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवेशे नान्ये धिशां च पतजे नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतजे नमो नमः पथीनां पतजे नमो नमो बभ्रुशायविव्याधिनेन्नानां पतजे नमो नमो हरिकेशाजोपभीतिने पुष्टानाम् पतजे नमो नमो भवस्य हेत्यै ज़्यत्य जगतां पतजे नमो नमो रुद्राजतविनेक्षेत्राणां पतजे नमो नमःताज हन्त्याजवनानां पतजे नमो नमो रोहिताय स्थपतजे पतये नमो नमो मन्त्रिणे वाणिजायकक्षाणां पतये नमो नम... ो भुवन्तजेवारिवस्कृतायौषधीनाम् पतजे नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतजे नमो नमःताय धावते सत्मनाम् पतजे नमः नमः सहमानाजनिं व्याधिन आ व्याधिनीनां पतजे नमो नमः ककुभाज निषङ्गिणे स्तेनाम् पतजे नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतजे नमो नमो वञ्चते परिवञ्चते पतजे नमो नमो निचे नवे तजे नमो नमसृकाविभ्यो जिघागुम् सद्भ्यो मुष्णताम् पतजे नमो नमोऽसि मद्भ्यो न तञ्चरद्भ्यस्प्रकृन्तानां पतये नमो नम उष्णीषिणे नमो नम इषुमद्भ्योऽधन्वाविभ्यश्च नमो नम नमो नम नमो नमोऽस्यद्भ्यो नमो ो नमः आसीनेभ्यश्च जानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः वो नमः नम आ व्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगृंहतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्स्पतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो श्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारे ेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारे एभ्यश्च वो नमो नमः पुञ्जिष्टे एभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमःभ्यश्व पतिभ्यश्च वो नमः नमो भवाय च रुद्राय च पशुपतजे च नमो नीलग्रीवाय च शितिकण्ठाय कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय शुमते च नमो ह्रस्वाय च नाय च नमो बृहते च वर्षीजसे च नमो वृद्धाय च संवृध्वने च नमो अग्रियाय च प्रथमाय च नम आशवे च नमः च शीभ्याय च नम नमः स्रोतस्याय च दीप्याय च नमो ज्येष्ठाय पूर्वजाय चापरजाय च नमो मध्यमाज चापगल्भाग च नमो जघन्याय च बुद्ध्निजाय च नमः च प्रतिसर्याय च नमोजाम्याय च क्षेम्याय च नम च खल्याग च नमश्लोक्याग चावसान्याग च नमो वन्याग च कक्ष्याय च नमश्रवा च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमशूराय चावमो बर्मिणे च वरुधिने च नमो बिल्विने च कवचिने च नमः श्रुताय प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमस्तीक्ष्णे शेचायुधिने च नमस्वायुधाय च सुधन्वने च नमःसृत्याय च पथ्याय च नमःकाट्याय च नीप्याय च नमः च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः प्याय चा नमो वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम नमो वात्याय च रेश्मियाय च नमो वा स्तव्याय नमः सोमाय ेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शंभवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कुल्याय च नमः भार्याय चा च नमः प्रतरणाय चोत्तरणाय च नम आचार्याय चालाद्याय च नम श्यज च भेन्याय च नमसि कत्याय च प्रवाह्याय च नम हिरण्याय च प्रपथ्याय च नमः शिलाय चक्षगणाय च नमः कपर्दिने च पुलस्तरे च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमो हृदय्याय च निवेश्याय च नमः पागम् य च च नमो लोप्याय चोलप्याय च नमऊर्व्याय च जाच्चा सूर्म्याय च नमःर्ण्याय च पर्णशद्याय जाच्चा च नमोपगुरमाणाय चाभिघ्रते च नम आखिदते च प्रक्षिदते च नमो वः किरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीडकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः प्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् याते नाम शिवा विश्वाह भेषजी शिवा रुद्रस्य भेषजी तजानो मृड मागुम् रुद्राज तपसे कपर्दिने क्षगद्वीराजप्रभरामहे मतिम् यथा न चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनोमयस्कृधि क्षगद्वीराज नमसा विधेमते यच्छञ्जोश्च मनुरागजे पिता तदश्यामतपरुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मान मानस्थोकेतन जेमान आयुषिमानो गोषुमानो अश्वे शुरीरिषः वीरान्मानो रुद्रभामितो वधीर्हविष्पन्तो नमसा विधेमते आरात्ते गोघ्न उत पूरुषघ्ने क्षगद्वीराजसु नमस्मे अस्तु रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म गच्छद्विबर्हाः स्तुहिः श्रुतम् गर्त सदम् अन्यन्ते अस्मन्निवपन्तु सेनाः परिडो रुद्रस्य हेतुर्वृडक्तु परिद्वेषस्य दुर्मतिरघाजोः अवस्थिरामघवद्भ्यस्तनुष्वमीढ्वस्तोकाजतनजाय मृडजा मीढुष्टमशिव तमशिवो नः सुमना परमे वृक्ष आयुधन्निधाय विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगृह्हेतजोऽन्यमस्मन्निपन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतजः तासामीशानो भगवः पराचीना मुखाकृधी सहस्राणि सहस्रशोजे रुद्रा अधिभूम्या तेषाकम् सहस्रशो जने वधन्वा नितन्मसि अस्मिन् महत्यर्णपेऽन्तरिक्षे भवा अधि नीलग्रीवाशितिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिपगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरानीलग्रीवा विलोहिताः ये भूतानामधिपतजो विशिखासः कपर्दिनः ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो ये पथाम् पथिरक्षग ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च सश्च दिशो रुद्रावितस्थिरे तेषागुम्सहस्रयो जने वधन्वा नि नमो रुद्रेभ्यो जे पृथिव्यां येन्तरिक्षेजे दिविजयेषामन्नं वातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणादशप्रतीचीर्दशोदीजीर्दशोऽर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेजन् विष्मोजश्च नो द्वेष्टितम्भोजम्भे त्र्यम्बकय्यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिबन्धनान्मृत्योर्मुक्षे जमामृतात् यो रुद्रो अग्नौ यो अप्सुज ओषधीषु यो रुद्रो विश्वा तस्मै रुद्राजनमो अस्तु तमुष्टुभिजस्विषु सुधन्वाजो विश्वस्य क्षजति भेषजस्य यक्ष्मा आ महेऽसौ मनसा च रुद्रन्नमोऽभिर्देवमसुरन्धुवस्य अयम् हस्तो भगवान मे भगवत्तरह अयम् मे विश्वभेषजोऽयम् शिवाभिमर्शनः येते सहस्रमयुतम् वाचा मृत्यो मर्त्याज हन्तवे तानि यज्ञस्य माजया सर्वानव यजामहे मृत्यवे स्वाहा मृत्यवे नमो भगवते रुद्रायविष्णवे मृत्युर्मे पाहि प्राणानाम् ग्रन्थिरसि रुद्रो माभिन्तकः तेनान्नेनाप्यायस्वा सरा शिवो ॐ शान्तिः शान्तिश्शान्तिः अग्नाविष्णुसजोषसेमा वर्धन्तु वाङ्गिरः युम्नैर्वाचेभिरागतम् वाजश्च मे प्रसवश्च मे प्रगतिश्च मे प्रसिद्धिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे चित्तञ्च म आधीतं च मे श्रो त्रं च मे दक्षश्च मे बलं च म ओजश्च मे सहश्च मयुश्च मे जरा च मत्मा च मे मे शर्म च मे बर्म च मेऽङ्गानि च ज्यैष्ठ्यञ्च म आधिपत्यञ्च मे मन्युश्च मे भामश्च मे मश्चमेम्भश्च मे जेमाच मे महिमा च मे वरिमा च मे प्रथिमा वृद्धिश्च मे सत्यं च जगत् च मे च मे वशश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे जातं मे जनिष्यमाणं मे सूक्तं मे सुकृतं मे प्तञ्च मे वेद्यं च मे भूतञ्च मे भविष्यच्च मे सुगं च मे सुपथञ्च मरुद्धं च मरुद्धिश्च मे क्लिप्तञ्च मे क्लिप्तिश्च मे मतिश्च मे सुमतिश्च मे शञ्च मे वजश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे जशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च सीरं <laughs> च ूर्च मे सूनृता जवाश्च मे नञ्च मेक्षुश्च मे ब्रीहजश्च मे जवाश्च मे वाषाश्च मे तिलाश्च मे मुद्गाश्च मे अश्वा च मे मृत्तिका च मे गिरजश्च मे पर्वताश्च मेसिकताश्च सीसं च मेत्रपुश्च मे श्यामञ्च मे लोहं च मेग्निश्च मे विरुधश्च मे पत्यञ्च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तञ्च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च मेमश्च म इतिश्च मे गतिश्च मे ग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता इन्द्रश्च मे सरस्वती च मे पूषा इन्द्रश्च मे बृहस्पतिश्च मन्द्रश्च मे मित्रश्च इन्द्रश्च मे वरुणश्च इन्द्रश्च मे त्वष्टा इन्द्रश्च मे धाता इन्द्रश्च मे विष्णुश्च मन्द्रश्च मे शिनौ इन्द्रश्च मे ृतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च इन्द्रश्च मे मूर्धा च इन्द्रश्च मे प्रजापतिश्च इन्द्रश्च मे अगुंशुश्च <n Chrome> <hed> <may> <yering> <sweetness -tas> ह्याश्च मऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीजाश्च मे माहेन्द्रश्च म मे सावित्रश्च मे सारस्वतश्च मे पौष्टश्च मे पात्निवतश्च मे हारियोजनश्च मे विद्मश्च मे बर्हिश्च मे वेदिश्च मेधिष्णिजाश्च ्रावाणश्च मे स्वरवश्च म उपरवाश्च मेधिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृश्च म आधवनीयश्च म आग्नेभ्रं च मे हविर्धानञ्च मे गृहाश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे ीरङ्गुलज्योतिषश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे स्तोमश्च मे गजुश्च मे दीक्षा च मे तपश्चमऋतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्र्यविश्च मे त्र्यवीच मे दित्यवाच्य मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावीच मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्जवाच्य मे तुर्जौ धेनुश्चम आयुर्जज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता विश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताञ्ज्ञो यज्ञेन कल्पताम् एकाच मे तिस्रश्च भे पञ्च च मे सप्त च भे नव च एकादश च मे त्रयोदश च भे पञ्चदश च मे सप्तदश च भे नव दश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च भे पञ्च विगुंशतिश्च मे सप् गुं शतिश्च भे नवविगुं षतिश्च एकत्रिगुं षट्चभे त्रगस्त्रिगुं षट्चभे चतस्रश्च वेष्टौ च भे द्वादश चभे षोडशच मे विगुं शतिश्च भे चतुर्विगुंशतिश्चेष्टाविगुं शतिश्च भे त्वात्रिगुं षट्चभे षट्त्रिगुं षट् चभे चत्वारिगुं षट्चभे चतुश्चत्वारिगुं षट्चबे ष्टा चत्वारि गुञ्जश्च मेवाजश्च प्रसवश्चापिजश्चक्रतुश्च सुवश्च मूर्धा च व्यश्णिजश्चान्द्यायनश्चान्द्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडावेवहोर्मनुर्यज्ञनीर्बृहस्पतिरुत्थामदानिषगुं देवा फिषद्विश्वे देवासूक्तवाचः पृथिविमातर् मा माहिंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीन् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्यां मनुष्येभ्यस्तम् देव अवन्तु शोभायै पितरोनुमदन्तु ॐ शान्तिः शान्तिः शान्तिः जे नमः निधनपतान्तिकाजनमः ऊर्ध्वाजनमः ऊर्ध्वलिङ्गा जनमः हिरण्याजनमः हिरण्यलिङ्गाजनमः सुवर्णाजनमः सुवर्णलिङ्गाजनमः दिव्या जनमः दिव्यलिङ्गाजनमः भवाजनमः भवलिङ्गाजनमः शर्वाजनमः शर्वलिङ्गाजनमः शिवाजनमः शिवलिङ्गाजनमः ज्वलाजनमः ज्वलिङ्गा जनमः आत्मा जनमः आत्मलिङ्गा जनमः परमाजनमः परमलिङ्गा जनमः एतत् सोमस्य सूर्गस्य सर्वलिङ्गग्रस्थापजति पाणिमन्त्रम् पवित्रम् सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः भवेर्वेनाति भवे भव भवे स्व माम् भवोद्भवाय नमः वामदेवा जनमो ज्येष्ठ जनमश्रेष्ठ जनमो रुद्रा जनमःकाला घोरे एभ्यो घोरघोरतरेभ्यः सर्वे ए ए नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्म शिवो मे अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपा जहिरण्यपतयेऽम्बिकापतज उमापतजे पशुपतये नमो नमः ऋतगुम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः सर्वो वैरुद्रस्तस्मै रुद्राजनमो अस्तु पुरुषो वै रुद्रः सन् महो नमो नमः विश्वम्भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् यजत् सर्वो ह्येष रुद्रस्तस्मै रुद्राजनमो अस्तु कद्रुद्राजप्रचेतसे मीढुष्टमागतव्यसे वोजे वसन्तमगुम् हृदे सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॐ शान्तिः शान्तिश्शान्तिः